हरि ओम् श्रीगणेशाय नमः श्रीगौरीशङ्कराभ्याम् नमः अथ श्रीशिवमहापुराणे विजेश्वरसंहितायाम् चतुर्विंशोऽध्यायः भस्महात्मम् श्रु उवाच द्विविधम् भस्मसम्प्रोक्तम् सर्वमङ्गलदम् परम् तत्रकारमहम् वक्ष्ये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 च बाली आदरेण च भस्मनोद्धूलनं चैव यथातीर्यक्त्रिपुण्डकम् प्रमादादपि मोक्षार्थि न त्यजेदिति वै श्रुतिः शिवेन विष्णुना चैव श्रुतं तीर्यक्त्रिपुण्डकम् भूमादेवी च लक्ष्म्या च श्रुतं च नित्य च ब्राह्मणैश्चत्रियैर्वद्यै क्षुद्रैरपि च शङ्करै अपभ्रंशे धृतम् भस्म त्रिपुण्डोद्धुद्धूलनात्मना उद्धूलनं त्रिपुण्डं च श्रद्धया नाचरन्ति ये तेषां नास्ति समाचारो वर्णाश्रयम समन्वितः उद्धूलनं त्रिपुण्डं च तेषां नास्ति विनिर्मुक्ति संसारा जन्म कोटिभिः उद्धूलवनम् त्रिपुण्ड्रञ्च श्रद्धया नाचरन्ति ये तेषाम् नास्ति शिवज्ञानम् कल्पकोटीशतैरपि उद्धूलनम् त्रिपुण्ड्रम् च श्रद्धया नाचरन्ति ये ते महापातकैर्युक्ता इति शास्त्रीयनिर्णय उद्धूलवनम् त्रिपुण्ड्रम् च श्रद्धया नाचरन्ति ये तेषामाचरितम् सर्वम् विपरीते फलाय हि महापातकयुक्तानाम् जन्तूनाम् सर्वविद्विषाम् त्रिपुण्डोद्धूलनद्वेषो जायते सुदृढम् सुदृढम् मुने शिवाग्निकार्यम् यकृत्वा कृत्वा कुर्यात्रि आयुषात्मवेत् मुच्यते सर्वपापयतु स्पृष्टेन भस्मना नरः स्थितेन भस्मना कुर्यात् त्रिसन्ध्यम् यत् सर्वपाप विनिर्मुक्तः शिवेन स मोदते चितेन भस्मना कुर्यात् ललाटे ला तु त्रिपुण्डकम् ये <coughs> योऽसो अनादिभूतान् लोकानाप्तो मृतो भवेत। अकृत्वा भस्मना स्नानं न जपेत् वैषडक्षरम् त्रिपुण्ड्रं च रचर्चित्वा तु विजयेन भस्मना जपेत् हृदयो वा धमो वापि सर्वपान्वितोऽपि वा उपपान्विधो वापि मूर्खो वा पतितोऽपि वा पतितो यस्मिन् देशे वसेन्नित्यम् भूतिशासनसंयुतः सर्वतीर्थैश्च क्रतुभिः सान्निध्यम् क्रियते सदा त्रिपुण्ड्र सहितो जीव पूज्य सर्वै सुरासुरैः पापान्वितोऽपि युद्धात्मा किं पुनः श्रद्धया युतः यस्मिन् देशे शिवज्ञानी भूतेशासनसंयुतः गतो यदृच्छयाद्यापि तस्मिन् तीर्था समागतः बहुनात्र किमुक्तेन धार्यम् भस्म सदा बुधैः लिङ्गार्चनम् सदा कार्यम् जप्यो मन्त्रः ब्रह्मणा विष्णुनः वापि रुद्रेण मुनिभिः सुरै भस्मधारणमाहात्म्यम् न शक्यम् परिभाषितुम् इति वर्णाश्रमाचारो लुप्तवर्णक्रियोऽपि च पापात् सकृत्रिपुण्ड्रस्य धारणात् सोऽपि मुच्यते ये भस्मधारिणम् त्यक्त्वा कर्म कुर्वन्ति मानवाः तेषाम् नास्ति विनिर्मोक्ष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 ब्राह्मणक्षत्रियश्चैव प्रतिष्वङ्गेषु भक्तिमान् वश्यस्त्र्यम्बकेनैव क्षुद्र पञ्चाक्षरेण तु अन्यासां विधवातॄणाम् विधि प्रोक्त च शूद्र व पञ्चब्रह्मादिमनुभिः गृहस्थस्य विधीयते त्र्यम्बकेन मनुनः विधिर्वै ब्रह्मचारिणः अघोरेणाथ मनुना विपिनस्थविधि स्मृत यति तु प्रणवेनैव वे त्रिपुण्ड्रादीनिकारयेत् अतिवर्णाश्रमे नित्यम् शिवोऽहम् भावनात् परात् शिवयोगी च नियतम् ईशानेनापि धारयेत् न त्याजम् सर्ववर्णै च भस्मधारणमुत्तमम् अन्यैरपि सरेति शिवशासनम् भस्मसंस्नानेन यावन्तः कणास्वाङ्गे पतिसिता तावन्ति शिवलिङ्गानि तन्नो धत्ते धारकः ब्राह्मण क्षत्रिया वैश्या क्षुद्रा चापि च त्रियोथे विधवा बाल प्राप्ता पाखण्डिका तथा ब्रह्मचारी गृहे वन्य संसार संन्यासी वा वृत्ति तथा नारियो भस्मत्रिपुण्ड्राङ्का मुक्ता एव न संशय ज्ञानाज्ञानधृतो वापि बन्धी राहसमो यथा ज्ञानाज्ञानाधृतं भस्म पावयेत् सकलं नरम् नाशनीयाज्जलमन्नमल्पमपि व भस्माक्षि धृत्या विना भुक्त्वा वाथगृहीव निपतयति वर्णी तथा शङ्करः एनो भुं नरकं प्रयाति स ददा गायत्री यापेन सहत् वर्णानां तु यते तु मुख्यप्रणव जापेन मुक्तिर्भवेत् त्रिपुण्डं ये विनिन्दन्ति निन्द विनिन्दन्ति जीवमेव ते धारयन्ति च ये भक्त्या धारयन्ति तमेव ते भालम् दिग्रामं अशिवालयम् दिगणेशार्चनं जन्मय दिग्विद्या शिवाश्रयाम् ये निन्दन्ति महेश्वरन्ति जगताम् आधारभूतं हरम् ये निन्दन्ति बुद्रिपुण्डधारणकरम् दोषसु तद्दर्शने ते वै शङ्कर सुकरासुरखर क्रोष्टु गीजोपमा भवन्ति पापपरमा ते नारग केवलम् ते दृष्ट्वा शशिभास्करौ निशिदिने स्वप्नेऽपि नो केवलम् पश्यन्तु श्रुतिरुद्रसूक्तजपतु मुच्येत ते नादृता सत्सम्भाषणतो भवेधि नरकम् निस्तारवानास्थितम् स्मादिविधारणम् हि पुरुषम् निन्दन्ति मन्दाहि ते न तान्त्रैकस्तु अधिकृतो मूर्धपुण्डधरो मुने सन्तप्तचक्रचिह्नत्र शिवयज्ञे बहिष्कृतः तत्रैते बहवो लोका गृहजा बलचोदिताः ते विचार्य प्रयत्नेन ततो भस्मारतो भवेत् यच्चन्दनैश्चन्दन चन्दनकेपि मिश्रम् धार्यम् हि भस्मैव त्रिपुण्डभस्मना विभूति भालोपरि किञ्चनापि धार्यम् सदा नो यदि सन्ति बुद्धय स्त्रीवि त्रिपुण्डमलकाय स्त्री वधिधारणीयम् भस्मद्विजादिभिरथो विधवाभिरेवम् तद्वत्सदा विशदा विभूति फलदा सकला सकलाघन्द्री त्रिपुण्ड्रं कुरुते यस्तु भस्मना संपातक महापातपातकसङ्गाते मुच्यते चोप चोपपातके ब्रह्मचारी गृहस्थो वा न प्रस्थोथवा यदि ब्रह्मक्षत्राश्च विच्छुद्र तथा ने पतिताधमः उद्धूलनन्त्रिकुण्डं च शुद्धा भवन्ति च भस्मो विधिना सम्भ्य पापराशिं विहाय च भस्माधारिविशेषेण त्रिगो हत्यादिपातकै वीरहत्याश्वहत्याभ्यां मुच्यते परद्रव्या प्रहरणम् परदार परदाराभिमर्शनम् परनिन्दा परक्षेत्र हरणम् परपीडनम् सत्यारामादिहरणम् गृहदाहादिकर्म कर्मच गोहिरण्यम् महिष्यादि तिलकम् बलवासधाम् अन्नधान्यजलादीनां निचेभ्यश्च परिग्रह दश वेश्यामतङ्गीषु कुशलीषु नटीषु रजस्वलासु, कन्यासु विधवासु च मैथुनम् मासश्चर्मरतादीनाम् लवणस्य च विक्रयः पैशून्यम् कूटवादश्च साक्षी मिथ्याभिलाषिणाम् एवम् आदिन्यसङ्ख्यानि पापानि विविधानि च सदैव विनश्यन्ति त्रिपुण्ड्रस्य च धारणात् शिवद्रव्या प्रहणम् शिवनिन्दा च कुत्रचित् निन्दा च शिवभक्तानां प्रायश्चित्ते न शुध्यति रुद्राक्षम् यस्य गात्रेषु ललाटे तु त्रिपुण्डकम् स चाण्डालोऽपि सम्पूज्य सर्ववर्णोत्तमोत्तमः यानि तीर्थानि लोकेस्मिन् गङ्गाध्यासीतश्चया स्नातो भवति सर्वत्र ललाटे तु त्रिपुण्डकम् सप्तकोटि महामन्त्रा पञ्चाक्षर पुरस्सर तथान्ये कोटिशो मन्त्रा चैव कैवल्य हेतवः अन्ये मन्त्रासु देवानां सर्वसौख्यकरा मुने ते सर्वे तस्य वश्या यो बिभक्ति त्रिपुण्डकम् सहस्रम् पूर्वजातानां सहस्रं जनैषताम् स्वंशजानाम् जातीनाम् उद्रेद्य त्रिपुण्डकम् इय भुक्त्वा अखिलान् भोगान् दीर्घायुर्व्याधिवर्जितः जीवितान्ते च मरणम् सुखेनैव प्रपद्यते अष्टैश्वर्य गुणोपेतम् प्राप्य दिव्य वपु शिवम् दिव्यम् विमानमारोह्य विद्याधराणाम् सर्वेषाम् गन्धर्वाणाम् रोचसाम् इन्द्रादिलोकपालानाम् लोकेषु च यथाक्रमम् भुक्त्वा भोगान् सुविपुलान् प्रजेशानाम् पदेषु च ब्रह्मणे पदमासाध्य तत्र कन्याशतम् रमेत् तत्र ब्रह्मायुषमानम् भुक्त्वा भोगान् अनेकच लोके लभेद् भोगम् यावद्ब्रह्म शतात्ययः शिवलोकम् तथा प्राप्य लब्धेष्टम् कामम् अक्षयम् शिवसायुज्यमाप्नोति संश्रयो नास्रदायताम् सर्वोपनिषदानुसारम् समालोक्य मुहुभुः इदमेव हि निर्णीतम् परम् श्रेयस्त्रिपुण्डकम् विभूतिम् निन्दते यो वै ब्राह्मण सौन्यजातकः प्रयाति नरके घोरे यावद्ब्रह्मा चतुर्मुख शिरधे यज्ञ जपे होमे वैश्वदेवे सुरार्चने धृतत्रिपुण्डभूतात्म मृत्युं जयति मानवः जलस्नानं मलत्यागे भस्मस्नानं सदाशुचि मन्त्रस्नानं हरे पापं ज्ञानस्नाने परं पदं सर्वतीथेषु यत् सर्वतीर्थेषु यत्फलम् तत्फलम् समवाप्नोति भस्मस्नानकरो नरः भस्मस्नानम् परम् तीर्थम् गङ्गास्नानम् दिने दिने भस्मरूपी शिव साक्षात् भस्मात्रोक्यपावनम् न तदूनम् न दध्यानम् जपोनसह तद्दानम् च पोनसः त्रिपुणरेण विनायेन विप्रेण यदुनुष्ठे यदुनुष्ठितम् न प्रस्थ से कन्याना दीक्षा ही नृढ़ा तथा मध्या जलुक्त परं त्रिपुनमत मानस शिवभक्त स विज भुक्ति मुक्ति च विंदती यंग रुद्राक्षकोपी बहुपु्य जन्मने त्रिपुण्ड्ररहितो यदि एवम् त्रिपुण्डमाहात्म्यम् समासात् कथितम् मया रहस्यं सर्वजन्तो नरम् गोपनीयमिदम् त्वया तिस्रो रेखा भवन्त्येव स्थानेषु मुनिपुङ्गवः ललाटादिषु सर्वेषु यथोक्तेषु बुधैर्मुने भुवोर्मध्यम् समारभ्य यावदन्तो भवेद्वौ तावत् प्रमाणं सन्धार्यम् ललाटे च त्रिपुण्डकम् मध्यमानामिकाङ्गुल्या मध्ये तु प्रतिलोमतः अङ्गुष्ठेन कृता रेखा त्रिपुण्ड्राख्याभिधीयते मध्येङ्गुलीभिरादाय तिसृभिर्भस्म यत्नतः त्रिपुण्ड्रम् धारयेद्भक्त्या भुक्ते मुक्ते पदम्बरम् सॄणामपि रेखानाम् प्रत्येकम् नवदेवताः सर्वत्राङ्गेषु आवक्ष्ये सावधानतया शृणु अकारो गर्हप्रत्याग्नि गुर्धर्मश्च रजोगुण ऋग्वेदश्च क्रियाशक्ति प्रातः रेखाया प्रथमाया च देवता, देवता विज्ञेया शिवदीक्षा परायणे उकारो दक्षिणाग्निश्च नभस्तम् यशुस्तथा मध्यन् दीनम् च सवनम् इच्छाशक्त्यन्तरात्मके महेश्वरश्च रेखाय द्वितीयाय च देवता विज्ञेया मुनिषा दूले शिवदीक्षा परायणे मकारा वह्नियौ च शक्ति सामवेद तृतीयम् सवनम् तथा शिवश्चैव च रेखाय तृतीयाय च देवता विज्ञेयमुनिष शिवदीक्षा शिवदीक्षापरायणौ एवम् नित्यम् नमस्कृत्य सद्भक्त्या स्थानदेवता त्रिपुण्रम् धारये शुद्धौ भुक्तिम् मुक्तिम् च विन्दति इत्युक्ता स्थानदेवा च सर्वाङ्गेषु मुनीश्वरः तेषाम् सम्बन्धिनो भक्त्या स्थानानि शुण साम्प्रतम् द्वादश द्वात्रिंशत् स्थानके वार्ध षोडशस्थानकेऽपि च अष्टस्थाने तथा चैव पञ्चस्थानेऽपि तान्यसेत् उत्तमाङ्गे ललाटे च कर्णयो नेत्रयोस्तथा नासावक्त्रगलेष्वेवम् हस्तयोरुभयोस्ततः कूर्परे मणिबन्धे च हृदये पाश्वयोर्द्वयो ना भूमुष्कद्वये चैवम् पूर्वो गुरुगुल्फे च जानुनि जङ्घाद्वये पदद्वन्द्वे द्वात्रिंशत् स्थानमुत्तमम् अग्न्यभूवायु दिग्देश दिक्पालान् दिक वसुभि सह ध्रहाध्रुवश्च सोमश्च आपश्चैव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 यजेत्तत्राश्विदैवते शिवम् शक्तिम् तथा रुद्रम् ईशम् नारदमेव च वामादिनवशक्ति च एता षोडशदेवताः न सत्यो दश्र कष्टैव अश्विनव अथवा मूर्निके चे च तथा बाहुद्वये च हृदये नाभ्यामुयुगे तथा जानोद्वये च पदयोः पृष्ठभागे च षोडश शिवश्चन्द्रश्च रुद्रको विघ्नेशो विष्णुरेव वा त्री चैव हृदये शम्भो तथा नाभो प्रजापति नागैश्च नागकन्या च उभयोर्षिकन्यकः पादयोश्च समुद्रा च तिष्ठा पृष्ठे विशालतः इत्येवम् षोडशस्थानम् अष्टस्थानमथोच्यते गुह्यस्थानम् ललाटश्च कर्णद्वयम् मनोत्तमम् असंयुग्मम् च हृदयम् नाभिरित्येवमष्टकम् ब्रह्मा च ऋषि सप्त देवता च प्रकृतिता इत्येवं च समुद्दिष्टम् बस्मवेद्भिर्मुनीश्वरः अथवा मस्तकम् बाहू हृदयम् नाभिरेव च पञ्चस्थानान्यमून्याहुः धारुणे भद्मविजनः यथासम्भवम् यथासम्भवनम् कुर्यात् देशकालाद्यपेक्षया उद्धूलनेऽप्य शक्ति चेत् त्रिपुण्ड्रादीनिकारयेत् त्रिनेत्रं त्रिगुणाधारम् त्रिवेदजनकम् शिवम् स्मरन्नमः शिव एति ललाटे तु त्रिपुण्डकम् ईशाभ्याम् नम इत्युक्त्वा पाशयोश्च त्रिपुण्डकम् बीजाभ्याम् नम इत्युक्त्वा धारे तु प्रकोष्ठयोर्यादध पितृभ्याम् च उमेशाभ्याम् तथोपरि भीमायति तथा पृष्ठे शिरसे पश्चिमे तथा इति श्री शिवमापुराणे प्रथमायाम् विद्येश्वरसंहितायाम् भस्मधारणवर्णनो नाम चतुर्विंशोऽध्यायः श्रीगौरी शङ्करार्पणमस्तु